पञ्चमकाण्डे पञ्चमप्रश्नप्रारम्भः यदेकेन सख्य स्थापयति यज्ञस्य संवृत्या अनुच्छेदायैन्द्रा पशुभो ये मुष्कराय देन्द्राश्रं ताग्निभ्या लभ्यन्ते देवताभ्यश्रमदं दधात्याभोयात्यावाक्या कुर्याद्यदाज्ञेयेस्तेनाग्ेयाय तिष्ठभस्तेनैन्द्रा समृद्धेन देवताभ्यः श्रमदं ददाति वायवेन परमालभते तेजोन्येर्वायस्तेजस एष आलभ्यते तस्मात् वायुर्वादि तत्रीम् गण्यतः दस्वमेव तत्तेजोन्वेतिगण्यनियुत्वदे स्यादम् मा युत्पदे भव तेजमानस्यानुमादाय वायुमते श्वेतवदीयानुवाक्ये भवदस्य तेजस्वाय हिरण्यगर्मः समवर्तताक्रैत्याकारमाकारयति प्रजापतिर्वैहिरण्यगर्म प्रजापतेरणनुरूपत्वाय सर्वाणि वा एषरूपाणि पशूनां प्रत्यारभ्यते यक्ष्मशृणस्तत्पुरुषाणामो रूपं यत्वो परस्तदश्वानान्यतो दन्तत्वन्यदव्यायस्तदवीनान्य वागर्वै पशूनां प्रियञ्जामयत्वायव्यापत्येतमेवैनञ्जानाश भगवतिश्चन्दे वायव्य राजाभ्रा ुर्यत्वा यज्ञं कुर्यात् प्रजापतेरियाद्य प्राजापत्यं कुर्यात् वायोरिहाद्यत्वा यज्ञः पशवति तेन वायोर्नैति यत् प्राजापत्यः प्रोडाश भवति तेन प्रजापतेऽर्नैति यद्वादशकपादस्तेन वैश्वानरान्नैत्या वैष्णवमेकादशकपादण्डर्पदिनेक्षिष्यमाणोऽः सर्वा देवता यज्ञा देवतास्त्यैव यज्ञं देवतानां विष्णुः परमाय वैष्णवमेकादशकपालन् निर्मपति देवता स्मिन् लोकार्धयामिव लोकार्माच्यादित्य भवति अस्यामेवाधित्यन्दे यथा सापत्यते तादृगेव ददात्यमाच्छेत् विश्वा नरन्दादशकपालं परस्तान्न वेत् संवत्सरो वाैश्वा न यथा संवत्सरमाप्त्वा काल आगते विजायत एवमेव संवत्सरमाप्त्वा काल आगते किञ्चिनेषा प्रियातन यद्वैश्वानरप्रियामेवास्य तनुवमहरुन्धेत्रीण्येतानि प्रिया हवित्रे लोका येषाम् लोकानागुरोहाय प्रजापतिः प्रजा सृष्ट्वा प्रेरणा न प्रापिशत्ताभ्यः पुनः सम्भवितु नाशक्नात्त्वञ्ज एवं वित्तानग्निं च नैव कस्मैकमग्निश्चीयत इत्याहृज्ञवानसामीतिवाग्निश्चीयते भवति कस्मैकमग्निश्चीयत इत्याहृते श्चीयदेवास्मैकमग्निश्चीयत इत्याहुक्कृत्य वा अग्निश्चीयते कस्मैकमग्निश्चीयत इत्याहुक्पशुमानसानि दिवा अग्निश्चीयते ृथिव्य प्रवेन्न मयतिभ्यत् प्रजापतिस्वासाधयतु तया देवदयाङ्ग्वासी इमामेवेष्टकाङ्कृत्वा ेवीमायस्मात् संवत्सरं भार्य प्रैवजायत्वमयनिष्ठा वयं प्रजायामः इति वसुभ्यप्रायच्छत्तयस्त्रि स्मात्र प्रिवजायते तान् रुत्रा अपृवं प्रयो यमजनध्वं वयं व्रजायामः इति तगोरुत्रेभ्यप्रायच्छन्दगोषडान्यपिस्ते नेण च शतान्यत्रयस्त्रिगोषदं च तस्माहं भार्यप्रिवजायते तानादृत्या अपुवं प्रयो यमजनध्वं वयं व्रजायामः इति न्यसृजन् धत्रयस्त्रिगोतञ्जतस्मा द्वादशाहम्भार्यः प्रैवजायते ते न वैते सहस्रमसृजन् दोखागो सहस्रतमीन्य एव मुख्यगोदाहस्रम् वे धत्रसहस्रम् पशूनाप्नोति युषा वा एषा क्रियते युषा पच्यते जुषापच्यते युखादा वा एषैतर्हि यातयां नीताप्रेत्येत्याहुरग्ने इक्ष्वाह्ये तम इक्ष्वाहिदे महूतमागु इत्युखाय अञ्जोदिते नैवेनां पुनः प्रयुङ्गे तेनायातयां नीवते युनग्े इन्दानेष्वग्ने इक्ष्वाहे तव इक्ष्वाहिदे वहूतमागु इत्या एष वाग् स्य देवेन यलक्तियुङ्क्ते इन्द्यानेषु ब्रह्मवादिना उत्ताना. एष प्रतिमया जीयते नमाहृदया रसवर्गस्य प्राचीनमाहुदयार्छन्दिनोत्तान सुवर्गस्य ृताति वाममेव दयावसे भवैरन्यञ्ज्योगर्वामञ्ज्योतिषैवास्यमम् वृन्देर्भवति प्रतिष्ठत्य न्दाग्निरभ्यत्या यथापराजावपदधाति मे एवोपधत्ते यत्नासौ रेतस्यमृतिष्ठति तत्प्रजायते तावोषधयो विरुधो भवन्ति ताग्निरत्य एवं प्रैवजायते भवद् योरे तस्वैप्रथमायान्तस्य चित्या ध्यासिमेवास्मै प्रथमायां प्रत्यवस्मिन्लोके भवति ञ मनसा कृतेन यथा देवा इहागमन विश्वाहापधाय जुहोत्येदत्वाग्ने शिरस्य शीर्षाणमेवाग्निञ्चिन ते सीरषामुष्मिन् लोके भवति एवं वेदसुवर्गाय वा एष लोकायीयतेदग्निस्तस्येद यथा पूर्वं क्रियते सुवर्गमस्य त्यमचित्यञ्जनवर्त्यविद्वान् वृत्यैव भीता वृजिना चमर्तान् रायेत नेत यथा पूर्वमेवै नामधत्ते प्रान्तमेन वर्ग्या भवति विश्वकर्मादिशां वदिस्सनः पशोन्वादसो अस्मान् वा दुदस्मै नमः प्रजापति रुद्रावरुणो पुशोऽन्वादसो अस्मां वा ददस्मै नम एताभिर्देवता एतेषां दिवध यस्ताभ्यो वा एष आवृश्यते यः पशुशीर्षान्युपदधाति हिरण्येष्टका उपदधात्येताभ्य एव देवतामस्करोति ब्रह्मवादिना वदन्त्यग्नोन् उपदधाम हिरस्य प्राण वै प्रथमा स्वय मायापानस्तृतीयानुप्राण्यात् प्रथमागस्वयमातर्नामपधाय प्राणेनैव प्राणगो समर्थये दव्यन्या द्वितीयां पधाय व्यानेनैव व्यानगो समर्थ गच्छ ैवा पागो समर्थ प्राणैरेवैनोद्भवस्वय मा तन्ना उपधा दीमेवै लोका स्वय मा तन्नाय खलु वे व्याहृदेव्य प्रजापधि प्राजायधय देताभव्याहृदेव्यः स्वयमातन्ना उपदधा दीमानैव लोकान्पधायेषु लोकेष्वधि प्रजायधय प्राणाय व्यानाय पानाय वाचे त्वा चक्षुषे त्वादया देवतया न्ते न पति तन्नाशक्नुवन्त एताश्चय मातृन्ना पश्यन्त दीक्षोपादधत सर्वदश्चक्षुषासु वर्गम् लोकमायनयश्चरस्रस्वय मातृन्ना दीक्षोपदधाति सर्वदस्य चक्षुषैव तग्निनायजमानस्सु वर्गम् लोकमेरि अग्नः आयाहि वेतय इत्याह स्वदेवेन भग्निन्दोतम् वृणीमः इत्याहोदेश्यैत्याणि जङ्घरीत्याज्ञेस्तामं मनामः इत्याहृत एवेन वेतानि वा अह्नागोरूपाणिते वान्नागोरूपाणि रन्धे ब्रह्मवादुना ष्टगाया दयान्ययादिन्द्राग्निवानां बृहस्पतिश्चायातयामानानुचरवैलोकं वृणाप्राणानुष्ठान्यनुचरदाह सहित्याह तस्मात् परुषि परुषे तत्सोमग्रश्रेणन्द्य पृश्य इत्याहान्नं वै पृश्यन्नमेवाम वरुन्धे को वाग्निर्कोन्नमन्नमे वा वरुन्धे जन्मन् देवानाम् विशस्ति स्वारो चे वैद्या हेमानेवास्मि लोकान् ज्योतिष्मृतकरो दियो वा इष्टकानाम् प्रतिष्ठाम् वेदप्रत्ययव तिष्ठति दयादेव दयाङ्गिरस्वध्रुवा प्रतिष्ठाय एवम् वेदप्रत्ययव स्वर्गाय वा एष लोकाय जीयते यदग्निर्वज्र एकादशिनी यदग्नावेकादशिनीं मिलया वज्रेण लोकादन्तर्दध्यात्यन्न मिलयात् स्वर्भ्यो वज्रेण स्वर्गाल् लोकादन्तर्दधातिनः स्वर्भ्यपुशोऽपि वा एष इन्द्रियेण वीर्येणक्रमणं हृतेश्च कामपदध्यात् वा एष्यस्तस्य एव नमस्कारात्साभ्य एवात्मानं निष्क्रीणीते यत् ते रुद्र पुरोधनस्तत्वादो अनुवादते तस्मै ते रुद्रसंवत्सरेण नमस्करोमि यत्ते रुद्रदक्षिणाधनस्तत् तस्मै ते रुद्रपरिवत्सरेण नमस्करोमियत्ते रुद्रपश्चाद्धनस्तत्वादो अनुवाचते तस्मै ते रुद्रेत्सरेण नमस्करोमियत्ते रुद्रोत्तराद्धनस्तत्वादो अनुवादते तस्मै ते रुद्रेजवत्सरेण नमस्करोमिते रुद्रोपरि धनस्तत्वादो अनुवादते तस्मै ते रुद्रवत्सरेण नमस्करोमि रुद्रो वा एष्यस्तत्येवं वा एष एतमे ैरुपदिष्टते नमस्कारैरेवै नो शमयधिकुरीष्या प्रविष्टा पृथिवी मनो येषाम् नमस्य उत्तमः प्रणो जीवातवेषु वा आ द्वाग्ने मनसा बन्द्वा ज्ञेतपसा बन्द्वाग्ने दीक्षया बन्द्वाग्नौ वदद्भिराबन्द्वाग्ने सुच्चया बन्द्वाज्ञे दक्षिणाभिराबन्द्वाग्ने मृतेरान्द्वाग्ने वशया बन्द्वाग्ने स्वगाकारेणेत्या एषा वाग्नेराप्तिस्तैवेप्नोति यित्रेण पुरस्तादुपतिष्ठते प्राणमेवास्मिन् ददाति बृहत्ेव प्रतिष्ठति पृष्ठैरपतिष्ठते जेजोभि तेज एवास्मिन् ददाति प्रजापतिरक्मसृजतसोरवन्दी यत्मारवन्दीयस्य वारवन्दी यत्त्व शीतेन श्वेते श्वेते ृत्युपदिष्टयामिन्दसा दे देवदयाट्ने श्रीर्ष्णामि दक्षिणया त्वा दुशादयामित्रैष्ठभेन छन्दसेन्द्रेण देवदयाज्ञे पक्षेणाग्ने पक्षमुपदधामि प्रदीक्षा आत्वा दिशा साधयामि जागते न छन्दसा समित्रा देवदयाज्ञे पुच्छेनाग्ने पुच्छमुपदधाम्येत्वा दिशा साधयाम्यानुष्ठमे न छन्दसामित्रा वृणाभ्यां देवतयाज्ञे पक्षेनाज्ञे पक्षमुपदधाम्योदया आत्मादिशा साधयामि वाङ्क्ये न छन्दसा बृहस्पतिना देवदयाज्ञे पृष्ठेनाग्ने पृष्ठमुपदधामियो वाग्निम्लोके भवति यस्तात्मानम् च न देदात् मामुस्मिन्लोके भवत्यात्मे उपददाब्देशः वाग्निम् च न देदात् मामुस्मिन्ल्लोके भवति य एवम् वेदा अग्नवदधे यातयिषुर्युमानामदयानोमृतस्यास्तेनमस्तस्यास्तवं दभूयास्माद्रि कौशलवन्ययाधयषुर्युवानामदयानो मृतस्यास्तेनमस्तस्यास्तवं दूयास्म पञ्चमायते यो यच्छत उदध्रा वन्य पञ्चमस्ते प्राणश्चिष्टानुश्वान्यस्तनवामे सह नमस्तेऽस्तु मामाहि गो नस्मात् प्राणाक्रामन्दि आसन्नस प्राण प्राणा नैवात्मयोऽर्थायोऽर्था विश्वानास्मै रुत्राय नमो अस्मागा वा अन्ये रुत्रा हृविर्भागा अन्ये चतुरुत्रीयगो हृत्वागायामिष्टगाया न विधेयेनैकेन गो शमयेत्वै च रुत्रियगुणो हृतमित्या हर्यस्यैतग्नोस्वाद्रे पुरस्तात्मा यमराजानपितृभिर्दक्षिणतः स्वाविश्वैः पश्चार्पादानस्वारुतारुणराजानेन भोतानमेध्या न प्रोक्षिता एतेन मधः प्राचीनम् प्रोक्षते यत्सन्ति बोधस्ते न मेध्यस्तेन प्रोक्षितः प्राजेरिक्तस्याक्तस्यास्त इन्द्राधिपतिप्रदा प्राजीनामासिप्रदेजे ते समाधिपति राजरधिपत्नी श्रीनामारिक्तस्यास्ते बृहस्पतिरधिपति श्रीत्रौ श्रीनामाधिपतिः कल्माशक्रीयो रक्षिता यश्चाधिपतिर्यश्च गोप्तान्नहस्तौ नुष्मो यश्च नोदं मान्यं भेदधाम्येता वै देवता अग्निञ्जितकमो रक्षन्त्यर्नजो यार्यं जयमाञ्जध्याये गीर्गदेता आहुते पश्चात् गृहास्वप्नो वैषभोगः परोवारा गृहापो वैषवधिपदयो नाम स्वान्दव्या नामस्थवास्तेषां हरिषवानिषवातनामं देभ्यो नो तेदम् वेदनामिवा अहुता दोन्येता देवो भयान्द्रीणामृश्रेणैता आहुते ज्योहजे देवीनान्द्रीणात्यल्वा हरिश्च गावी देवा अहुता दैत्यनुपरिक्रामं जुः न्दन्धयापादस्य मध्ये यवाक् किं प्रयत्जन विमुचते दाश्वो युक्तो व्यमस्यमानः अक्षद्यं वराभवत् ये ममस्याग्निः पराभवतं पराभवन् दनयेमानो न पराभवति सोऽक्निम् चित्तालोक्षो भवती मक्तस्तमोद्ध स्वन्दन्दयापाज्ञाज्ञस्य पूर्णागस्विजं जोत्येशवाग्नेर्विमोकादिवच्छेय वास्मा अन्नमविददा जदस्मादाहर्यस्य एवम् वेदयेचनसुनायकं अभयगादि सुहितो दधाति तित्यज्ञ इन्द्राय राज्ञे सुकरो वरुणाय राज्ञे कृष्णयमाय राज्ञाशय राज्ञे गवयस्यादोलाय राज्ञे गौरवपुरुषराजाय मर्कडः क्षिप्रस्यैनस्य भक्तिगानेरङ्गोक्रिमिस्तामस्य राज्ञः सिन्धो सुमारोहिमदाहस्य मयि प्राजापत्यभूलो हरिक्ष्णावृषधश्चेता सरस्वत्यैवाक्सरस्वतेश्वरपुरुषवागारण्यो जोलस्यक्रमकरः कुलेकयस्य गोबालस्य वाचे वै इङ्गराजोभगायदाते वायव्यादिज्ञश्चक्रवाकः ीरामेण्यण् कृष्णरात्रिविकाक्ष्मीकालेणे धातुः मयूरश्येनकम् धर्माणाम् वसूनाम् कपिञ्जलोरुत्राणाम् दिक्तिनेकुण् गोरत्तिका अप्सरसामर्याय श्रुमनः मासानाम् कस्य श्रीमार्यः सस्ते शका भूमिपान्द्रपशमान्धेलवस्ते पितृणामृतो माञ्जहका संवत्सराय लोपाकपोधुलोगश्यस्ते नैरुक्षवास्तात्रः रुद्रष्टृकराजश्यकुरव्यदेशरव्यायै हरिणो मारुतो ब्रह्मणेशाक्षकृष्णश्वादिभस्तू रिक्षपुत्रावृकावृषदकोजस्त ऐन्द्रापामुत्रे लोपाशिगुंह न कला व्याघ्रस्ते महेन्द्राय कामाय परस्वान् कृष्णग्रीवः सारस्वती अश्वस्थो भरागो मृगस्थे प्राजापत्याः ज्ञेयो कृष्णग्रीवोष्टो मुशक्तो श्रिपृष्ठोपृहस्पत्यो धातु पुरुषोधरः सौर्यो बलक्षप्ते त्वः अग्नयेनेकवधेनोहिताञ्जलवा नो रामौ सावित्रौ भोष्णौ रजतनाभी वैश्वनेवो विषङ्गौ दो बरो मारुतः कल्मषाग्नेयः कृष्णोजस्तैवारुणः कृष्णयके इति पञ्चमकाण्डे पञ्चमः प्रश्नः समाप्तः